था तद्वुषेधायि दर्शतम् देवस्य भर्गः सहसो यतो जनी यदि मुकह्वरते साधते मतिर्हृतस्य धेनाः अनयन्तस्रुताः वृक्षोपकुः पितुमान् नित्य आचजेद्वितीय बा सप्तशि बासु मातृषु तृतीयमस्य वृषभस्य दोहसे दश प्रमतिम् जनयन्तजोषणः निर्यतीयम् बुधान्वहिषस्य वर्पस ईशानासशवसाक्रन्तसूरजाः यदीमनुप्रतिभो मध्व आधवे गुहासन्तम् मातरिश्वामथायति प्रयत्पितुः परमान्नीयते पर्यापृक्षुधो ओभीरुधोदम् सुरोहति बुभाय तस्य जनुषञ्यदिन्वत आदिद्यविष्ठ अभवद्घृडाशुचीः आदिन्मातृराभिशब्द्या स्वाशुचिरहिंस्यमान उर्विजा विवा आवृधे अनुजत्पूर्वा अरुहत्सनाजुवो निनव्यसीश्ववरासु धावते ओम् शान्तिश्चान्तिः